श्रीमद्भागवतमहापुराणन्द संस्कन्ध असुद्वितीयोऽध्यायः भगवान् का गर्भप्रवेश और्देवताओ द्वारा गर्भेस्तुति शेषोकुवाच प्रलम्बबकचारुरतृणावर्तमहाशनैम श्रीकारिष्टद्विदं पूतनाके सुधेनुकैहम् अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः यदूलां कदनं चक्रे बलिमागतसंशयः ते पीडितान् विविशु कुरुपाञ्चालकेकयान् साल्वान् विदर्भान् विशधान् विदेहान् कोसलानपि एके तमनुरुन्धानाज्ञातयपर्युपासते हतेषु षट्सु बालेषु देवक्या अग्रसेनिनाम् सप्तमो <Sýmí> वैष्णवं <mântaté> धाम <Sýmântaté> यमनन्तं प्रचक्षते गर्भो बभूव देवक्या हर्षलोकविवर्धनः भगवानपि विश्वात्मा विदित्वा कंसजं भयं यदूनां निजनाथानां योगमायां समादिशन् गच्छ देवी व्रजं भद्रे गोपं गोभिरलङ्कृतम् रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले अन्याश्च कंससंविज्ञाविवरेशो वसन्ति हि देवक्या जठरे गर्भं शेषाख्यं धाम मामकं तत्सन् सन्निकृष्य रोहिण्या उदरे सन्निवेशय देवक्या पुत्रतां शुभे प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसिम् अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीं धूपोपहारबलिभिः सर्वकामवरप्रदां नामधेयानि कुर्वन्ति स्थानानि च नराभुवे दुर्गेति भद्रकालीति विजया वैष्णवीति च कुमुदा चण्डिकाकृष्णा माध्वी कन्यकेति च माया नारायणी शालीसारदेत्यम्बिकेति च गर्भशङ्कर्षणात् तं वै प्राहुसङ्कर्षणं भुवि रामेति लोकरमणाद् बलं बलवदूच्छ्रयात् सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः प्रतिगृह्य परिक्रम्य गां गता तत्तथाकरोत् गर्भे प्रणीते देवत्यारोहिणीं योगनिद्रयाम् अहो विसंसितो गर्भ इति पौरा विचुकृषु भगवानपि विश्वात्मा भक्तानामभियङ्करः आविवेशांसभागेन मन आनकुन्दुभेः स बिभ्रत्पौरुशंसाम भ्राजमानो यथा रभिः दुरासदोति दुर्धर्षो भूतानां शं बभूव ततो जगन्मङ्गलमच्युतां सं समाहितं सूरसुतेन दधार दधारसर्वात्मकमात्मभूतं काष्ठा यथानन्दकरं मनस्तः सा देवकी सर्वजगन्निवासनिवासभूता नितरां नरेजे भोजेन्द्रगेहेऽग्निसुखेन रुद्धा सरस्वती ज्ञानकले तां वीक्ष्यकं स प्रभयाजितान्तरां विरोचयन्तीं भवनं सुचस्मिताम् आहै स मे प्राणहरों हरिर्गुहं ध्रुवं श्रुतो यन्नपुरे य मीदृशे किमद्य तस्मिन् करणीयमाशु मे यदर्शतन्त्रो न विक्रमं त्रियाश्वसु ये स जीवन् खलु सम्परेतो वर्तेत योत्यन्तनुसंसितेन देहे मृते तं मनुजा सपन्ति गन्ता तमोन्धं तनुमालिनो ध्रुवम् इति घोरतमाद्भावा सन्वृत्त स्वयं प्रभु आसी प्रतीक्षन्तञ्जन्म हरेर्वैरानुबन्धकृन् आसीन संविसन् तिष्ठन् भुञ्जानपर्यटन्महिम् चिन्तया नो शिशि केशम् अपश्यन्तन्मयं जगदन् ब्रह्मा भवश्चि तै तत्रैत्यमुनिर्भि नारदादिभिः देवैः सानुचरैः साकं गिरिभिः विषणमेडयन् सत्यवृतं सत्यपरं तु सत्यं सत्यस्य योनिं निहितं च सत्ये सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाम् एकायनुषौ जफलस्त्रिमूलचतुरस पञ्चविधषडात्मा सप्तत्वगष्टविटपोनवाक्षों दशक्षदि द्विखकों ध्यादिवृक्षः तमेक एवाशि सतप्रसूतिस्तं सन्निधानं तमनुग्रहश्च तन्मायया संवृतचेतसरस्त्वं पश्यन्ति नाना विभर्सरूपाण्यवं बोध आत्मा क्षेमाय लोकस्य चराचरस्य सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुखलानां त्वय्यम्बुजाक्षाखिलसद्वधाम्नि समाधिनावेशितचेतसैके त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवश्च भवाब्धिम्